श्रीमद्भागवत् महापुराणं सप्तं स्कन्ध अथ पञ्चमोऽध्यायः हिरण्यकशिपुके द्वारा प्रह्लादजीके वध का प्रयत्न नारदवाच पौरोहित्याय भगवान् वृतः काव्यकिलासुरैः सण्डमार्कौ सुतौ तस्य दैत्यराजगृहान्तिके तौ राज्ञा प्रापितं बालं प्रह्लादं न कोविदम् पाठयामासतो पाठ्यान्न्यास्त्यासुरबालकान् यत्तत्र गुरुणा प्रोक्तं शुश्रुवेनोपपाठत न साधु मनसा मेनेष्वपरा सङ्ग्रहाश्रयम् एकदा सुरलाटपत्रमङ्कमारोप्य पाण्डव प्रक्ष कथ्यतां वः स मन्यते साधु यद्भवान् प्रह्लाद उवाच तत्साधु मन्ये सुरवर्यदेशिणां सदा समुद्वेग्नधियामसद्गृहात् त्यक्त्वात्मपातम् गृहमन्धकोपं वनम् गतो यद्धरिमाश्रयेत नारदुवाच श्रुत्वा पुत्रगिरोदैत्यपरपक्षसमाहिताः जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिर्विष्णुपक्षै प्रतिच्छन्नै न भिद्योतासुधिर्यथा गृहमानीतमाहूय प्रह्लादं दयति याजकाः प्रसस्य सुलक्ष्मणया वाचा समपृच्छन्त सामभिः वस्य प्रह्लादभ्रं ते सत्यं कथय मामृषां बाला न तीं कुतस्तुभ्यम् एष बुद्धिर्विपर्ययः परकृतम् बुद्धिभेदपरकृत उताहोते स्वतो भवत् भण्यतां श्रोतुकामानां गुरूणां कुलनन्दनम् प्रह्लाद स्वपरश्चेत्यसद्ग्राह्य पुंसां जन्मायया कृतः विमोहितधियां दृष्ट तस्मै भगवते नमः स यदानुवृत पुंसां पशुबुद्धिर्विभिद्यते अन्यये स इति भेदगता सती स एष सा परेत्य बुद्धिभि दुरत्ययानुक्रमणो निरूप्यते मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो चेस सिनत्तिमेवतिं यथा भ्राम्यत्ययो ब्रह्मंशं स्वयमाकर्षसन्निधौ तथा मे भिद्यते चेतश्चक्रपाणेर्यदीक्षयां नारदुवाच एतावद्ब्राह्मणाय उक्त्वा विराममहामतिः तं निर्भत्सन्याथ कुपितः स दीनो राजसेवकः आनीयतामरेवेत्रम् अस्माकं यशस्करः कुलाङ्गारस्य दुर्बुद्धे चतुर्थोऽ स्योदितोदमः दैतेय चन्दनवने जातोऽयं कण्टकद्रुमः यन्मूलोन्मूलपरशोर्न्विष्णोर्नालायितोर्भकः इति तं विविधोपायैभिः संस्तर्शनादिभिः प्रह्लादं ग्राहयामास त्रिवर्गस्योपपादनम् तत् एनं गुरुर्ज्ञात्मा ज्ञातगेयचतुष्टयं दैत्येन्द्रं दर्शयामास मातृमिष्टबलङ्कृतम् पादयोपतितं बालं प्रति नद्यांसि सासुरः परिष्वद्य चिरं दोर्भ्यां परमापनिवृतिम् आरोप्याङ्कमवघ्राय मूर्धण्यं श्रुकलाम्बुभि आसिञ्चन्विकृसद्वक्त्रम् इदमाह युधिष्ठिरं हिरण्यकसिपुरुवाच प्रह्लादानुच्यतां तात् स्वधीतं किञ्चिदुत्तमं कालेनैतावतायुष्मन् यदस्य क्षद् गुरोर्भवान् प्रह्लादुवाच श्रवणं कीर्तनं विष्णुस्मरणं पादसेवनम् अर्चनं वन्दनं दास्यं सक्षमात्मानिवेदनम् इति पुंसार्पिता विष्णो क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमं निसम्यैतस्तु वचो हिरण्यकसिपुस्तदां गुरुपुत्रमुवाचेदं वृषा प्रस्फूरिताधरः ब्रह्मबन्धोकिमेतत्ते विपक्षं श्रेतासताम् असारं ग्राहितो बालो मामनादित्यदुर्मते सन्ति ह्य साधवो लोके दुर्मैत्राश्चद्मवेषिणः तेषामुदेत्यघं काले रोगपातकिनामिव गुरुपुत्रवाच नप्रणीतं न परं प्रणीतं सुतो वदेत्ये स तवेन्द्रशत्रोः नियक्षमन्यं कददा स्म मानः